श्रीहरये नमः अथ षोटसोऽध्यायः श्रीशुक उवाच अथ देवऋषिराजन् सम्परे तं नृपाद्मजं दर्शयित्वे वाच जीवात्मन् पश्य भद्रं ते मातरं पितरं च ते सुहृदो भान्त वास्तप्ता सूचा त्वत्कृदया भृशं कलेवरं स्वमाविश्यशेषमायुः ुङ्क्ष्वभोकान् पितृवृत्तान् अधिष्ठनृपातरो भवन्निश बन्धुज्ञात्यरिमध्यस्तमित्रोदासीनविद्विषः सर्व एव हि सर्वेषां भवन्ति क्रमसोमितः यथा पण्यानि हेमादीनि ततस्ततः पर्यटन्ति नरेष्वेवम् जीवो योनिषु नित्यस्यार्थस्य सम्बन्नो ह्य नित्यो दृश्यते नृषो यावद्यस्य हि सम्बन्धो मम त्वं तावदेव हि एवं योनिगतो जीवः स नित्यो निरहङ्कृतः यावत् यत्रो बलभ्येद तावत् एष नित्ययक् सूक्ष्म एष सर्वाश्रयश्वधृग प्रभुः न ह्यस्यातिप्रियः कश्चिन्नप्रियस्वपरोऽपि वा एकः सर्वधियां द्रष्टा कर्तॄणां गुणदोषयोः नाधत्त आत्मा हि गुणं न दोषं न क्रियाफलम् उदासीन वधासी नः परवरदृगीश्वरः जीवो ज्ञातयस्तस्य चेतधा विस्मितामुशुश्शोकं चित्वात्मस्नेहशृङ्खलान् निर्हृत्य ज्ञातयो ज्ञातेर्देहं कृत्वोचिता क्रिया तत्यजुर्दुस्यजं स्नेहन् शोकमोहो भयार्तिधं बालज्ञोव्रीडितास्तत्र बालहत्यागतप्रभाहन् बालहत्याव्रतं चेरोर्ब्राह्मणैर्यन्निरूपितं यमुन्नायामहार राज स्मरन्तो द्विज भाषितं सहित्तं प्रति काळिन्द्यां विधिवत् स्नात्वा कृतपुण्य जलक्रियः मौनेन संयत प्राणो ब्रह्मपुत्रौ अवन्दत अत तस्मै प्रपन्नाय भक्ताय प्रयतात्मने भगवान्नारदः प्रीतो विद्यामेतामुवाचः ॐ नमस्तुभ्यं भगवते प्रद्युम्नाय अनिरुद्धाय नमः सङ्कर्षणाय नमो विज्ञानमात्राय परमानन्दमूर्तये आत्मा रामाय सान्ताय निवृत्तद्वैतदृष्टये आत्मानन्दानुभूत्यैवन्यस्तशक्त्युर्मये नमः ऋषिकेशाय महते नमस्ते विश्वमूर्तये वचस्यु परते प्राप्यय एको मनस् सह अनामरूपश्चिन्मात्रसोऽव्यान्तशतशत्परः यस्मिन्विधं यतश्चेधम् तिष्ठत्यप्येधिजायते मृण्मयेष्विवम् मृज्जातिस्तस्मै ते ब्रह्मणे नमः यन्न स्पृशन्ति न विधुर्मनो बुद्धीन्द्रियासवः अन्तर्भगिश्च विततम् व्योमवत्तन्नतोऽस्म्यहम् देहेन्द्रियप्राणमनो धियोमि यदंश तानेषु तद्ध्रष्ट्रभदेशमेते ॐ नमो भगवते महापुरुषाय महानुभावाय महाविभूतिपतये सकलसात्त्वतपरिवृढनिकरकरकमलकुड्मलोपलालित चरणारविन्दयुगळपरमपरमेष्टिं नमस्ते श्रीशुक उवाच भक्तायैतां प्रपन्नाय विद्यामातिश्य नारदः यया वङ्गिरसा सा गन्धामस्वायम्भुवं प्रभो चित्रकेतुस्तु विद्यां तां यथा नारदभाषितान् धारयामाससप्ताहम् अभक्षसुसमाहितः ततश्च सप्तरात्रान्ते विद्यया धार्यमाणयान् विद्याधाराधिपद्यं सलेभे प्रतिहतं ृपहा ततः कतिपयोः पेर्विद्यये दमनो गतिः जगाम देवदेवस्य शेषस्य शरणान्तिकम् मृणाळगौरम् क्षितिवास संस्फुरत् किरीटकेयूरकटित्र कङ्कणम् प्रसन्नवक्त्रारुणलोचनम् व्रतम् दतर्श सिद्धेश्वर तद्दर्शनद्वस्त समस्त गिल्पिशः ृद्धभक्त्या प्रणयाश्रुलोचनः प्रहृष्टमरोमा न मधाति पूरुषम् स उत्तमश्लोक पदाब्ज विष्ट्रम् प्रेमाश्रुलेशे रूपमेकयन्मुहुः प्रेमोऽपरुद्धा किल वर्णनिर्गमो नैवासकत्तं प्रसमीडितुं चिरं ततः समाधाय मनो मनीषया बभाषये तत्प्रतिलब्धवागसो नियम्य सर्वेन्द्रियवाक्यवर्तनं जगद्गुरुं शाश्वतशास्त्रविग्रहम् चित्रकेतुरुवाच अजितश्चितसमधिपेस्साधुभिर्भवाञ्जिदात्मभिर्भवता विजितास्तेऽपि च भजताम् अगामात्मनाम् आत्मधोतिकरुणः तव विभव खलु भगवन् जगदुतयस्थितिलयादीने विश्वसृजस्ते सां स्तास्तत्प्रमृषा स वर्धन्ते पृथगभिमत्यां परमाणु परममहतो त्वमाद्यन्तान्त्रव्यर्तित्रयविदुरहा आधावन्तेऽपि च सत्त्वानां यध्रुवं तदेवान्तरालेऽपि शिद्यादिरेक्ष किलावृतसप्तभिर्दशगुणोत्तरैयाण्ठकोशः यत्र पदत्यणुकल्पश्च काण्डकोटिकोडिविस्त धनन्तः विषयदृशो नरपसवो य उपासते विपूतिर्न परं त्वां तेषामाशिषईश तदनो विनश्यन्ति यथा राजकुलम् कामधियस्त्वैरचिता न परमरोहन्ति यथा करम् बबीजानि गुणमये गुणगणो तस्य द्वन्द्वजालानि जितमचिदधा भवता यधागभागवतं धर्मवद्यं निष्किञ्चनाय मुनय आत्मा रामायमुपासते पवर्गाय विषममतिर्न यत्र नृणान् त्वमहमिति मम तवेति च यधन्यत्र विषमधियो रचितो यः सह ह्यविशुद्धक्षयिष्णोरधर्मबहुलः क्षेमो निजपरयो न व्यभि यया भागवतो धर्मः स्थिरचरत्सत्त्वकदम्बेषोऽब्रुधक्तियोऽयमुपासते त्वार्याः न हि भगवन्नघटितमितं त्वद्दर्शनात् तृणमाखिल पापक्षयः यन्नामसकृत् श्रवणात् पुल्कशोकोऽपि विमुच्यते संसारत् अथ भगवन्वयमधुना त्वदवलोकपरिमृष्टा सयमलाः सुरऋषिणा यदुतितं तावकेन कथमन्यथा भवति विदितम् अनन्तसमस्त्वं तव जगदात्मनो जनैरिहाचरितं विज्ञाभ्यं परमगुरो कियधिवसतुरिव गद्योधये नमस्तुभ्यं भगवते सकलजगस्तितिलयो धसाय दुरवसिद्धात्मगतये कुयोगिनां परमहंसाय यं वै स्वसन्तमनुविश्व विश्वश्रुजस्वसंती। यं चेकिता नमनुचित्तय उच्चकन्ति भूमण्डलं सश्यपायति यस्य मूर्ध्नि तस्मै नमो भगवतेस्तु सहस्रमूर्ध्ने श्रीशुक उवाच संस्तुतो भगवानेवम् अनन्तस्तम् अभाषद विद्याधरपतिं प्रीतश्चित्रकेतुं कुरुर्ध्वः श्रीभगवानुवाच यन्नारदाङ्गिरोऽभ्यां ते व्याहृतं मेऽनुशासनं संसिद्धोऽसितया राजन् विद्यया दर्शनाच मे अहं वै सर्वभूतानीभूतात्मा भूतभावनः शब्दब्रह्म परं ब्रह्म ममो भे लोके विततम् आत्मानं लोकं चात्मनि सन्ततम् उभयं च मया व्याप्तं मयि उभयं कृतम् यथा सुषुप्तः पुरुषो विश्वं पश्यन्ति चात्मने आत्मानमेकदेशस्थं मन्यते स्वप्नवृत्थितः एवं जाकरणादीनि जीवस्थानानि चात्मनः मायामात्राणि विज्ञाय तद्द्रष्टां परमं स्मरेत् येन प्रषुप्तपुरुषस्वभावं वेदात्मनस्तधा सुखं च निर्गुणं ब्रह्मतमात्मानम be him, mom. उभयं स्मरतः पुंस प्रस्वाबप्रतिभोतयोः अन्वेति व्यतिरिष्ये तथ ज्ञानं ब्रह्म तत्परं यत् एतत् विस्मितं पुंसो मद्भावं भिन्नमात्मनः ततः संसारयेदस्य देहाद्देहो मृतेर्मृतिहे लब्धवेह मानुषीं योनिं ज्ञानविज्ञानसम्भवाम् आत्मानं यो न बुद्ध्येतन चेत्समम् आप्नुयात् स्मृद्वेहायां परिक्लेशं ततः अभयं चाप्यनीहायां सङ्कल्पात् विरमेत् कविः सुखाय दुःखमोक्षाय कुर्वा ते दम्भती क्रियाः तथोनिवृत्तिरप्राप्तिर्दुःखस्य च सुखस्य च एवं विपर्ययं भूत्वा नृणां विज्ञाभिमानिनाम् आत्मनश्च गतिं सूक्ष्मां स्थानत्रयविलक्षणाम् दृष्टश्रुताभिर्मात्राभिर्निर्मुक्तस्वेन तेजसा ज्ञानविज्ञानसन्तुष्टो मद्भक्तपुरुषो भवेत् एतावानेन मनुजैर्योकनैपुणबुद्धिभिः स्वार्थः सर्वात्मना ज्ञेयो यत्परमात्मैकदर्शणं त्वमेतत् श्रद्धया राजन् अप्रमत्तो धारयन् आशुषिध्यसि श्रीशुकौ आश्वास्य भगवानित्तं चित्रकेतं जगद्गुरुः पश्यतस्तस्य विश्वात्मा तत शन्तर्धते हरिः इति श्रीमद्भागवते महापुराणे षष्ठस्कन्ते चित्रकेतो परमात्मदर्शनं नाम षोडशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणम् गोविंदा, गोविंदा, सद्गुरु महाराज की जय